युर्यो भूत्ता बहुधा भूनि चैत्सर्वम् ज्ञामसे यो देवो देवे तु विभूरन्तः आवधूता क्षेत्रेभगद्गताः तमित्राणम् मनसोपशिक्षता अग्रम् देवानामिगमुत्तमापि मनसश्चित्तेनम् भूतम् भव्यम् च गुप्यते तद्धिदेवेष्वग्रियम् आनये तु सह दे। दे। देवे निमगुम्भवम् परः श्रेयति कर्मणि पुरोहिताव्यपाणि वबुधा वदन्ति वेशान्धेवाः परमे चरित्रे स्फुरन्ति मा चक्षुर्देवानाम् ज्योतिर्यक्तम् अस्य विज्ञानाय बुधा निधीयते अस्य तु नमशीमहे मानोहाद्विलक्षणम् आदिरन्नः पतेर्यताम् अनन्धाश्चक्षुषाभयम् देवाज्योचरशीमहे सुपर्ज्योतिवृतामृतम् श्रोत्रेण भद्रमुदृशन्वन्ति सत्यम् श्रोत्रेण वालिम्बुभोद्यमानाम् श्रोत्रेण मोदश्च महर्षः सूर्यते श्रोत्रेण सद्भाजनोमि येन प्राच्यामुदक्षिणा शृण्वन्त्यम् बुधोद्यमानम् हरायने विष्प इदर्वम् बभूव उवे हि वाजुन्यो अस्यत्सन्तः इदम् राष्ट्रमाविषो न तावत् यो रोहितो विश्वमिदम् जानो राष्ट्रे सुषिता रोहकम् रोहकम् ताभिः सम्बद्धो अनुलक्षुर्वीः दातुम् प्रपश्यन्निहराष्ट्रमाहाष्ट्रमिह लोहितः पृथो व्यास्तदभयम् नोऽस्तु अस्मभ्यम् द्यावाभिजदेशक्मनीभिः राष्ट्रम् दुहासामिहरेवतीभिः भी। मिमरिसरोहितो विश्वरूपः समाजक्राणप्रलोहोश्चायमहतामहिम्ना विनो राष्ट्रमुनक्तमयसा स्वेन याश्चेपि शस्त्रभूभो नायत्रम् वत्समनुतास्तादुः तास्तान्तमः सामाता पुत्रो अभ्येतरोहितः यूयमुग्रामरुदः पश्चिमादरः इन्द्रेणेशत्रो आवहित तस्मै परमेष्ठेतदाना तस्मिन् शिश्रगे अतिवेकमाकः स्व अन्तरिक्षेवा सुवरन्विन्दन्ता समग्रादो जक्वो जादवेदः रुक्षन्तित्वाग्ने भोजनानि अग्ने शब्धमहते सौभगाय तवद्युम्नान्युत्तमानि सन्तो सञ्जापत्यगुंसय ममागृष्म शक्रोयतामभिगच्छामहागुंसे पुनर्नयिन्द्रो मघवाददातु धनानि शक्रोधन्यः सृष्टेनो अस्य हविषो यथानः यानि नो चिरन्तनानि अनेन विषागुणः इन्द्राशाभ्यः परे सर्वाभ्योभयम् करते जयशत्रो आगोक्ते त्वा कामायक्ता समधेत्त्वा रुदधे कामदत्पादिजीवसे आकोजिमस्यामसे कामस्य समध्ये इन्द्रश्च इञ्च देशयः आकोजिम् देवे मनसः यज्ञस्य माता सुखवा मे अस्तु तिरिक्षा विमलसाधकामः विजय मेरेण विष्टम् से गौवत्येत्य सहस्रपाठ अक्षरासमेति आशान्ताशापालेभ्यः अतुर्भ्यः मृदेभ्यः इदम्भो तस्याध्यक्षेभ्यः विधेमहमिषाभयम् विश्व आशा अनमेव भवन्तु अयमानो मृथो व्यस्यताः पशवः सन्तु सर्वे अज्ञः सोम वरुणो मित्रेन्द्रः बृहस्तरिः स पितायः सह स्त्री ओषा नोभिरवधा सरस्वती षष्टारूपाणि सरस्वती ओषा भगवन्त पिता तयात्मज्टरेन्द्रम् सोमो अग्निः भगवन्द्रिमन्तम् धीमहि प्रलेके पूर्वैव वप्रजे कामोऽस्मे तमावृणावसुपदे वसूना इमम् कामम् मन्दयागोभिरश्वेः चन्द्रवताराधसा वप्रदश्च सुवर्यवो मतिभिस्तोभ्यम् विप्राः इन्द्रायवाहक्तुिकासोऽक्रन् इन्द्रस्य लभे यानि प्रवोचम् यानि चकारप्रथमानि वृद्धिः अहम् न हिमन्वस्तदर्दा प्रवक्षणाभिरपर्वदानाम् अहम् न हिम्पर्वदेशस्य यानम् पृष्टाः श्रायिपथेन वस्यन्दमानाः अञ्जः समुद्रमवजग्मुपः विषायमानावृणे रतोमम् तृगतृगेपत्सुतस्य आसायकम् मघवा दत्तमग्नम् अहम् नेणम् प्रथमचामहीनाम् यदिन्द्राहम् प्रथमचामहीनाम् तादे नाशत्रोन्न किला विवित्से अहम् वृत्रम् वृत्रतरम् व्यपुंसम्भ्रेण महता वधेन स्कन्धापुंसी वपुण्डिशेन विविग्ना अधिश्रेण उपृथिव्या अयोध्यैव दुर्मलाभिजुक्वे विश्वाविहायाः वसुवर्दधे हस्ते दक्षिणे नरणिर्नसिस्रथत् श्रवश्रिया न सिस्रसत् विश्वस्मायिति युध्यते देवत्राव्यमोहिषे विश्वस्मायित्सुकृदेवारमन्वदे अग्निद्वारा व्यन्वदे पुर्विहानाभिकाममीरयन् प्रपञ्चन् विश्वाभुवनानि पूर्वथाः आकेतुनाशुरमिद्धः यजिष्ठः रामन्नाज्ञे अभिरव्यदिभ्यः विषाणा हव्यमृतेषु सूभ्यः आरारयम् बहुराङ्गोमदेमिषम् विहेर्यक्षतमृतेषु भूषन् अश्विना यज्ञमागतम् दाशुसः पुरुतगुङ्खसा पोषारक्षतु नारयम् इमम् यज्ञमश्विना वर्धयन्ता इमो रयम् विदमानाय धत्तम् इमो विषोन्द्रक्षताम् विश्वतो नः पूषाणः पार्श्वदमप्रैच्छन् प्र ते महेधरस्वति सुभगे वाजिनेपदे सत्यवाचे भरे मतिम् इदम् दे हव्यम् हृतवत्सरस्वती सत्यवाचे प्रभरे माहवीदूषे इमानि ते तुतासौ भगानि रेभिर्वयम् सुभगामस्याम यज्ञो राजो यज्ञयीशेवसूना यज्ञयिष्टः पूर्वनित्यन्दधातु यज्ञान् ब्रह्मण्वागुम् अप्येतु देवान् अयम् यज्ञावर्धताङ्गोभिरश्वेः इयम् वेदि स्वपत्या सुवीया परिह इदम् इमै यज्ञम् विश्वे अवन्तु देवाः देवा। भग एव देवाः येन वयम् भगवन्तः स्याम दन्ताभगसर्वयज्ञो हवेमे सनाभगपुरगेताभवेह भगप्रणयदर्भगसत्यनाधः भगे मान्धियमुदवदन्नः भगप्रणाजने गोभिरश्वैः भगप्रणभनिर्बन्धस्यामः शश्वती समा उपयन्त्य लोकाः शश्वती समा उपयन्त्यपः इष्टाम्बोर्ग्रगुम् शश्वतीनागुम् समानागुम् शाश्वतेन अविषेष्ट्वानन्दम् लोकम् परमारोह साया प्रथमा योच्यते सा रूपाणि कुरुते पञ्चदेवी द्वे स्वसारोपैतस्तन्त्रमेतदे सनातनम् युषण्मयुखम् अपान्यायस्तन्तो निरतो ध अन्यानि नामपर्ज्याते न गमाते अन्तम् आहोयन्तो दवाहासो अद्या वृष्टि ये विश्वे मरुतो जुनन्ति मय्य अग्निर्मरुतः वेतञ्जिध्वगमयायमानः धारावरामरुतो कृष्णोदशः मृगानीवास्तविषयभिः अग्नसुजानावन्मता विचक्रमे त्रिर्देवः आवेधसन् नीलपृष्ठम् बृहन्तम् बृहस्पतिंसदने सादयध्वम् सादत्यानिन्दमादिवापुंसम् हिरण्यवर्णमरुषगुंसपेम िरण्यपाशेर्हि बृहस्पतिष्पाः पूर्वतखिर्भ्याङ्करिष्ठः पूरण्यस्तव्रजे वयम् नरिष्येम कदाचल स्तोतारस्तैरस्पसि या हस्ते पोषन्नावो अन्तः समुद्रे हिरण्येरन्तरिक्षे चलन्ते याभिर्यादितोगम् सूर्यस्य कामेण कृतश्रवयुक्षमानः अरण्यान्यरण्यान्यसौ याः प्रेम नश्यसे तथा ग्रामन्नपृच्छसि ताभिन्दतेवायवदत्पापदि आघाटीभिर्यधावयन् अरण्यानिर् महीयते उत कावयवादन् उत कावैष्णेव दृश्यते उतो अरण्यायः सायम् शकटेम सज्जते गामङ्गैषा आह्वयते दाहर्वङ्कैष उपापधेरे वसन्नरण्यान्यागुंसायम् अकृक्षति मन्यते न वाहरण्यानिर्हन्ते अन्यश्च अन्नाभिगच्छते स्वादाफलस्य जग्ध्वा यत्र कामन्यपद्यते आञ्जनगन्धे पुंसरभे भगवन्नामगर्भे बला प्राहमृगाणाम् मातरम् अरण्यानैव शकुम् शिशम् वार्त्रहत्याय शमसे प्रतनासाह्याय चयामसे सुब्रह्माणम् वेलवन्तम् बृहन्तम् पृथुबुद्धमिन्द्रा श्रुतरषुमग्रमभिमादिषाहम् पस्मभ्यम् चित्रम् षण्म् रयिन्दाः क्षेर्त्रये निर्त्ययित्वा द्रुवमुञ्चामिवरुणस्य पाशाच अनागसम्ब्रह्मणे त्वागलमे शिबेदे शन्ते अग्निः सहाभिरस्तु्या वा पृथिवी रघोषधीभिः समन्तरिक्षकम् सहवादे शन्ते चरस्रः प्रतिशा भवन्तो याले शरस्रः प्रदिशः वादपत्ने लघुचोर्या विचष्टेरसामि प्रेक्ष्मयेक्ष्माद्विजा बृहपाशान्निर्वृत्ते चोदमोचे अह आवर्तिमपि दक्षोनम् अव्यभवद्भद्रे सुकृतस्य लोके सूर्यमृतम् तमस्राह्यायत् देवामुन्नसु जन्मेन सह एवमहमिवंशे प्रियाद्याविषपुंसात् बृहमुञ्जाविवरुणस्य पाशात् बृहस्पते इवमिन्द्रश्च वस्वः भक्तगुम् हि विष्णुरचिते यूयम् पादस्वस्तिभिस्तदानः देवादिधमिन्द्रमाजो विश्वाविधमभिक्षमाणाः येन हता दीर्घमध्वानमायन् अनन्तमर्थमणिवत्स्यमानाः त्यक्तेऽर्चिता ते हिमवत्सुषम् अयोभो शन्तमायद्धृतो हि ततो न देहि जीवने अतो गिरेभ्यथापति सकुशोभमाना कन्येव शुभ्रे ताङ्गामग्गलाः विरावर्धयन्ति सान्भाजयः ऊर्वम् देवाबलयनानि पश्यन् जन्मभिः जन्मान्यवरेफलानि वेदानि देवायमस्मीतिमान् अलकम् हित्वा शरीरम् जलतः परस्तात् प्राणापानो चक्षुश्रोकम् पाचम् वनचितम्भृता हित्वा शरीरम् जलतः परस्तारा च आहूतिम् भोजिम् वयमश्नवामहे इमा एवता वृषसो या प्रथमा व्यौ्छन् ता देव्यः प्रभुदेवम् च रूपा शश्वतेरन्नावभृज्यन्ते न गमन्त्यन्तम् मूर्म्या आदित्यानाम् तेजसा विश्वे देवानाम् क्रतुना मरुता मेऽम्नायः विश्वाहाः अभिभूतिरहमागमम् इन्द्रसखा स्वायुधः आश्वासादृष्यहः दिनम् मर्त्वा अग्निना रक्तमार्गात् शोभर्गः सहवो जलम् च देर्घायित्वाय शरसारदाय प्रतिगृहामि महदे वीर्याय आयुरधि विश्वायुलसे सर्वायुरथिधर्ममायुरसे सर्वम् आयुर्भूयात् सर्वमायुर्गेधम् पुर्भवस्तुवः अग्निर्धर्मेणान्नादः वृद्धिर्धर्मेणान्नमतिः ब्रह्मक्षत्रग्रस्वाहा प्रजापतिः प्रणेता बृहस्पतिः पुरगेता यमः पन्थाः चन्द्रमाः पुनरसस्वाहा <laughs> अग्निरन्नादोऽन्नमतिः अन्नाद्यमस्मिन् यज्ञे यजमानाय ददादस्वाहा सोमो राज्यमस्मिन् यज्ञे यजमानाय ददाद स्वाहा वरुणः सम्राट् सम्राट्पदिः साम्राज्यमस्मिन् यज्ञे यजमानाय ददाद स्वाहा वित्रः क्षत्रम् क्षत्रपतिः क्षत्रमस्मिन् यज्ञे यजमानाय ददाद स्वाहा इन्द्रमलम् बलपतिः बलमस्मिन् यज्ञे यजमानाय ददाद स्वाहा ब्रह्पतिर्ब्रह्म ब्रह्मपदिः ब्रह्मानिज्ञे यजमानाय ददादस्वाहा सविता राष्ट्रम् राष्ट्रपतिः राष्ट्रपस्मिन यज्ञे यजमानाय ददादस्वाहा ऊषाविषाम्यतिः विषमस्मिनिज्ञे यजमानाय ददादस्वाहा सरस्वती पुष्टिः पुष्टिपत्ने पुष्टिमस्मिन् यज्ञे यजमानाय ददादस्वाहापष्टापशो नाम्यदानागम् रूपपतिः भिग्रन्थिवायान् आदय सुष्मारे धरागा पुरस्तात् आ विश्वतो इन्द्रद्भिन्द्रंशुवधे ह्यस्मै पुरोष्पस्मै पुरोरथम् इन्द्रायषोषमर्चता अभिज्ञे सङ्गे समत्सपुत्रः अस्माकम् बोभितो नभन्तामञ्जकेशाकाधिसङ् इन्द्रमयकंसुनासीरम् अस्मिन् यज्ञे हवामहे आवालेरुपमागमने इन्द्रायशु नासीराय श्रुजायुतनाहविः ः प्रहव्यानि कृतवन्त्यस्मै हरियश्वाय भरदाषाः इन्द्रकृभिधानः सुदाधीरे हविरदञ्जुरस्व पयस्वपर्णापुषयधिलिन्द्रम् प्रियमेधासमानाः अबद्धान्तमो वाचक्षुः मोक्षान् बृहदिन्द्रायगायताहन्तमम् तेनो निरदनेन्द्रतावृतः एवम् देवा इदाग्रिः काभिः गाः कमेपदङ्गाः का वान्थालाः कुलिपरिमापतन्ति अनावृते नान् प्रथमन्तु देवाः सोमन्नञ्चक्षुस्तनुवाविदेन एवानन्दस्त्ववरुणम् बृहन्तम् नमस्याधीनम् वदस्य गोपात्रवरोधम् विजगुंसते योऽयम् पादस्वस्ति विस्तदानः नागेतु वर्णमुभयपदन्तम् धृता वेदन्द्भ्यजक्रदत्त्वा हिरण्यपक्षम् मरुणस्य दूतम् यमश्रयोनोचवदम् भरण्यम् षण्ष्टये आहो अपोयानि अग्निसम्भवम् आपष्टविश्वपदे मुखमन्थितनस्पदे या नैदम्भर्या तस्या तस्यास्ते भक्षीया भूयिष्ठभाजा भूयास्म अहम् मनसि मनसि त्वमेतन् ममादयोनिष्ठभयोनिरस्मि ममे पुत्रेलो विगद्वादवेदः विहैव सन्तत्रे प्राणेन भाचा मनसा मासन्त प्रहासीत् दो यात्वा वैश्वानयतिष्ठे अयम् तेजो निरृः यतो जातो यथा यज्ञो भो भक्ता यज्ञमासीदस्वायोम् जागवेयमानस्वक्षयैः उपावरोह जागवे रः पुनस्तम् देवेभ्यो हव्यप्रजानन् आय प्रजागुण् अजस्रवजे तत्राजविज्ञयापवर्तने राये नमहि कर्म कर्तवे महाभुलम् सेनकम् सच्छद्देवम् देवः सत्यनिन्दकम् सत्य इन्द्रः विगद्दिमारुग्णवद्रेः करिपासपूर्यगम् सद्धियः कः अग्रणयत्सुपद्यक्षराणाम् अच्छादवम् प्रसमाजा नदीकान् विगद्यव्यगम् सरमाधृषौ येनानि कम्मानुषे भोज देवण दे। आये विश्वाः स्वपत्यानि चक्रुः कृमदर्पायघातुम् कन्दभर्णदय देवभूतौ भोरेण वृत्पाहरि यश्वागुंसे तन्निकस्विञ्चुमरिम् धुरिम् चाश्वापयोगभेदये सुहन्तो एवापाहि प्रत्तथामन्तदत्त्वाधस्फोतभेद्भे आविश्वर्यम् एषः शक्लुम् रभिन्द्रदन्धे अग्नेपाठस्वधानपामी वा परक्षान्ति तस्मात् समुद्दात्मगतोः अपा भोवानपुदेत्वा वसोनिपुरुधाभिसन्त दीर्घमाय विजमानाय कण्ठे इन्द्रशुनावत्विदनोऽधीनम् संवत्सरस्य प्रतिमानमेतत् अर्कस्य जानिष्प्रजिदाज्येष्ठम् संवत्सरकं शुनवत्सीरमेतत् इन्द्रस्य दासप्रेतम् पुरुत्मना तदत्ररूपम् विर्मानमेते द्वादशारे प्रतिष्ठते दृषाः अश्वाळन्तो गम्यन्तो भागयन्तः हवामहे त्वोपगन्धवाहो आहूषन्तस्पासु मदोनभायाम् अयमिन्द्रस्त्वाशु न कुम्भोयम ओ